श्रीहरये न महा अथ चतुर्दशोऽध्यायः गृहस्तये तां पदवीं विधिनायेन साञ्जसा यादिदे बरुषे ब्रूहिं नारथौ वाचा गृहेष्वावस्थितो राजन् क्रिया कुर्वन् गृहोचिताः वासुदेवार्पणं साक्षात् उपासीतमहामुनिन् शृण्वन् भगवतो भीष्ण अवतारकथामृतं श्रद्धता नो यदा कालम् उपशान्तजनावृतः सत्सङ्गाश्च नैः सङ्घम् स्वयं स्वप्नवद् यावदर्थमुपासीनो उपासीनो, गेहे च पण्डितः विरक्तो रक्तवत्तत्र नृलोके नरतान्यसे ज्ञातयः पितरौ पुत्र भ्रातरः यद्वदन्ति यदिष्टन्ते चानुमे दिव्यं भौमं चान्तरिषं वित्तं मच्युतनिर्मितं तत्सर्वं वुपभुञ्जानयेतत् कुर्यात् स्वतोभूतः यावत् ब्रियेत जठरं तावत् स्वत्वं हि अतिगम्योऽभिमन्येत सुस्ते नोद्दण्टमर्हति मृगोष्ट्रकरमर्ग आहु सरीषुगकमक्षिकाः आत्मन पुत्रवत् पश्येत् तैरेषामन्तरम् कियत् त्रिवर्गम् नाधिकृश्रेण भजेत गृहमेद्यपि यदा देशं यथा यावद्दैवोपपादितम् <laughs> आस्वागान्तेऽवसायिभ्यः कामान् संविभजेत्यत अप्ये धारा नृणां स्वत्वग्रह यतः जह्याद्य धर्ते स्वप्राणान् हन्यात्वापितरं गुरुम् तस्यां स्वत्वं स्त्रियां जह्यात् यस्तेनह ह्यजितो जितः क्रिमिविड् भस्मनिष्टान्तं क्वेदं तुच्छं कलेवरं कवत क्वायं कवतदीयरतिर्भार्या क्वायम् आत्मानभश्चतिः सिद्धैर्यज्ञावशिष्टार्थे कल्पयेद्वृत्तिमात्मनः शेषे स्वत्वं त्यजन् प्राज्ञां पदवीमहतामिया देवान् ऋषीन्दृभूतानि पितॄनात्मानमन्वहं स्वविरध्यागतवित्तेन यजेत पुरुषं पृथक् यर्ह्यात्मनोऽधिकाराध्यान् सर्वाशूर्यज्ञसम्पदः वैतानिकेन विधिना अग्निहोत्रादिना जेत् न ह्यग्निमुखतोऽयं वै भगवान् सर्वयज्ञभुग युज्येतः विशाराजन् यथा विप्रमुखे हुतैः मर्त्यादिषु यथार्हतः तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननु कुर्यादपरपक्षीयं वासि प्रौष्ठपदे द्विजः शार्धं पित्रोर्यथा तद्बन्तूनां च अयने विषवे कुर्याद् व्यतीपाते दिनक्षये चन्द्रादित्योपरागे च द्वादशी श्रवणेषु च तृतीयायां शुक्लपक्षे नवम्यामत कार्तिके चतसृष्वपि अष्टकासु हे मन्ते शिशिरे तथा माघे च सितसप्तम्यां मघाराखासमागमे राखया चानुमत्या वा द्वादश्यामनुराता स्यात् श्रवणस्तिस्त्रवुत्तराः तिश्रुष्वेकादशीवासु जन्मर्षश्रोणयोगयुगतयेते श्रेयसकल नृणां श्रेयो विवर्धनाः कुर्यात्सर्वात्मनैतेषु श्रेयोमोघं तदायुषः येशुस्नानं स्नानं जपो होमो व्रतम् ते भद्बिजार्चनम् पितृदेवनृभूदेव्यो यद्दत्तं तद्यनश्वरम् संस्कारकालो अपत्यस्य आत्मनस्तथा प्रेतसंस्थामृदाहश्च कर्म अयभ्युदयेन्नृप अदेशान् अदे प्रवक्ष्यामि धर्मातिश्रेय आवहान् स वै सत्पात्रं यत्र लभ्यते बिम्बं भगवतो यत्र सर्वमेतच्चराचरं यत्र ह तपो विद्याधयान्वितं यत्र यत्र हरेर्चास दे यत्र गङ्गाधयो नद्य पुराणेषु च विश्रुताः सरांसि पुष्करादीनि क्षेत्राणि अर्हाश्रितान्युत कुरुक्षेत्रं गयशिर प्रयागपुलःश्रमः नैमिषं पाल्गुणं सेधुं प्रभासोतकुशस्थली वारणासी मधुपुरी पम्पा बिन्दुसरस्तथा नारायणाश्रमो नन्दा सीतारामाश्रमादयः सर्वे कुलाचलाराजन् महेन्द्रमलयादयः एते पुण्यतमादेशा हरेर्चाश्रिदाश्च एतान्देशान्निषेवेद श्रेयस्कामो ह्यभीक्ष्णसहा धर्मो ह्यत्रेखितः पात्रं त्वत्र निरुक्तं कविभिः पात्रवित्तमैः हरिरे कबुर्वी स यन्नयं वै चराचरं देवर्ष्यर्खस्तु वै सत्सो तत्र ब्रह्मात्मजादीषु राजन्यदक्रपूजायां मतः पात्रतयाश्च्युतः जीवराशिबिराकीर्ण आण्डको साग्रियो महान् तन्मूलत्वा तच्युते सर्वजीवात्मतर्पणम् पुराण्यनेन सृष्टानि रुधिर्यकृषिदेवताः सेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ तेष्वेषु भगवान् राजन् तारतम्येन वर्तते तस्मात् पात्रं हि पुरुषो यावानात्मायते यते, यते दृष्ट्वा तेषामितो नृणाम् अवज्ञानात्मतां नृप त्रेतादिशु हरेर्श्च क्रियायैकविभिकृता ततोश्चायां करिं उपासत उपास्तापे नार्तधा पुरुषद्विषा पुरुषे राजेन्द्र सुपात्रं ब्राह्मणं विदुः तपसा विद्यया तुष्ट्या दत्ते वेदं हरेस्थनुं। नन्वस्य ब्राह्मण कृष्णस्य जगदात्मनः पुनन्तः त्रिलोक्यं दैवतं महत् इति श्रीमद्भागवते महापुराणे सप्तमस्कन्ते सदाचारनिर्णयो नाम चतुर्दशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनात्मकराजिकी जय